आप्तैरलुब्धैक्रमिकैस्ते च कच्चिदनुष्ठिताः कच्चिद्राजन् कृतान्येव कृतप्रायाणि वा पुनः विदुस्ते वीरकर्माणि नवाप्तानि कानिचित् कच्चित् कारणिका धर्मे सर्वशास्त्रेषु कोविदाः कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः कच्चित् सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् पण्डितो ह्यर्थकृच्छ्रेषो कुर्यान्निःश्रेयसंपरम् कच्चिद्दुर्गाणि सर्वाणि धनधन्यायुधोदकैः यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः एकोऽप्यमात्यो मेधावी शूरोदन्तो विचक्षणः राजानम् राजपुत्रम् वा प्रापयेन्महतीम् श्रियम् स्वपक्षे दश त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः कच्चिद्विषामविदितः प्रतिपन्नश्च सर्वदा नित्ययुक्तो रिपुन् कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः कच्चिदग्निषुते युक्तो विधिज्ञो मतिमान्दृजुः हो, हुतं च काले वेदयते सदा कच्चिद निष्ना ज्योतिष प्रतिदक उत्पातेषु चु दुशलस्तव कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः जघन्याश्च जघन्येषु भृत्याः कर्म सुयोजिताः